अथ पञ्चत्रिंशोऽध्यायः वैशम्पायनुवाचा पितामहं गुरुं चैव प्रत्युद्गम्य युधिष्ठिरः अभिवाद्य ततो राजन्निदं वचनमब्रवीत् भीष्मं द्रोणं कृपं द्रोणीं दुर्योधनविंशति अस्मिन् यज्ञे भवन्तो मामनुगृह्णन्तु सर्वशः इदं वस्तु महच्चैव यदि हस्ति धनं मम प्रणयन्तु भवन्तो मां एवमुक्त्वा स सर्वान् दीक्षितः पाण्डवाग्रजः युयोजस यथा योगमधिकारेष्वनन्तरम् भक्ष्यभोज्याधिकारेषु दुःशासनमयोजयत् परिग्रहे ब्रह्मणानामश्वत्थामानमुक्तवान् राज्ञां तु प्रतिपूजार्थं सञ्जयम् संयोजयत् कृताकृतपरिज्ञाने भीष्मद्रोणौ महामति हिरण्यस्य सुवर्णस्य रत्नानां च अन्ववेक्षणे दक्षिणानां च वैदाने कृपं राजान्ययोजयत् तथान्यान्पुरुषव्याघ्रांस्तस्मिन् तस्मिन् ययोजयत् वाह्निको धृतराष्ट्रश्च सोमदत्तो जयद्व्रथः न कुलेन समानीताः स्वामिवत्तत्र रेमि रे क्षत्ताव्ययकरस्त्वासीद्विदुरः सर्वधर्मवेत् दुर्योधनस्त्वर्हणानि प्रतिजग्राह सर्वशः चरणक्षालने कृष्णो ब्राह्मणानां स्वयं ह्यभूत् सर्वलोकसमावृत्तः पिप्रेषुः फलमुत्तमम्